श्रीहरये नमः अथ सप्तमोऽध्यायः नारथौ उवाच एवं दैत्यसुतै पृष्टो महाभागवतो सुरः उवाच स्मयमानस्तान् स्वरन्मदनुभाषितं प्रह्लाद उवाच पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलं युद्ध्योत्यमं परं चक्रोर्विबुधा दानवान् पिपीलिहै अहिरिवदिष्ट्या लोकोपतापनः पापेन पापो भक्षिति वादिनो वासबादयः तेषामधिबलोद्योगं निशमय असुरयूतपाः वद्यमानाशुरैर्भीता दुद्रुवुः सर्वध्योतिषम् कलत्रपुत्रमित्राप्तान् गृहान् पशुपरिश्च तान् न वेषमाणा स्तरिताः सर्वे प्राणपरीप्सवः व्यलुम्बन् राजशिबिरम् अमराजय मातरं मम शागृहीत् नीयमानं भयोद्विघ्नां रुदतीं कुररीमिव यदृश्चया गतस्तत्र प्राघमयीनां सुरपतें नेतुमर्हसि अनागसं मुञ्चमुञ्च महाभाग सतीं परपरिग्रहम् इन्द्र उवाच आस्ते स्याजठरे वीर्यम् अविषह्यं शुरद्विषः आस्यतां यावत्प्रसवं मोक्षेऽर्थपदवीं गतः नारद अयं निष्किल्भिषसाक्षात् महाभागवतो माखा महान् त्वया न प्राप्स्यते संस्थाम् अनन्तानुचरो बली इत्युक्तस्ताभियेन्द्रो देवर्षेर्मानयन् वचः अनन्तप्रियभक्त्यैना परिक्रम्यदि वं ययौ तथो ऋषे समानीय निजाश्रमम् आस्वास्ये होष्यतां वत्से यावत् ते भर्दुरागमः तथेत्यवात्सी देवेर्षेरन्ति साप्यकुतोपभया यावद् दैत्यपतिर्घोरातपसो नन्यवर्तत ऋषिं पर्यशरस्तत्र भक्त्या क्षेमायेश्चा प्रसूधये ऋषिकारुणिकस्तस्य प्राधात् उभयमीश्वरः धर्मस्य तत्त्वं ज्ञानं च मामभिमुद्दिश्य निर्मलं तत्तु कालस्य दीर्घत्वात् स्त्रीत्वान् मातुस्ति मां नातु नापि भवतामभिभूयान्मे यदि श्रद्धे वचः वैरासरधीधि श्रद्धात् स्त्रीबालानां च मेतया जन्माध्याक्षटि भावा दृष्टा देहस्य नात्मनः वृक्षस्य कालेनेश्वरमूर्तिना आत्मा नित्यो एकक्षेत्रज्ञ आश्रयः अविक्रियस्वदृहेतो्यापको शङ्गी अनावृतः एतै द्वादशभिर्विद्वान् आत्मनो लक्षणैः परैः अहं मम इत्यसद्भावं देहाधौ मोहजं त्यजेत् स्वर्णं यथा घ्रावसु हेमकारान् क्षेत्रेषु योगैस्ततभिज्ञा आप्नुयात् क्षेत्रेषु देहेषु तथात्मयोगैर् अत्यात्मवित् अष्टौ प्रकृत्य प्रोक्ताश्रया हि तद्गुणाः विकाराशोटसाचार्यै पुमानेकसमन्वयात् देहस्तु सर्वसंघातो जगस्तस्तुरिति द्विता अत्रैव मृग्यपुरुषो नेति नेतीत्यत नेती त्यजन् अन्वयव्यतिरेकेण विवेकेनोऽसथात्मना सर्गस्थानसमाम्नायैर्विमृषद्विरसत्वरैः बुद्धिर्जाकरणं स्वप्न येनैव अनुभूयन्ते सोऽध्यक्षः पुरुषः परः ये विस्त्रिवर्णनैर्पर्यस्तैर्बुद्धिभेदैःक्रियोद्भवैः स्वरूपमात्मनो बोध्येत् गन्तैर्वायुमिव अन्वयात् एतद्वारो पुंसः स्वप्नयि वेष्यते कर्मणां त्रिगुणात्मनां बीजनिर्हरणं योग प्रवाहोपरमोदियः तत्रोपायसहस्राणामयं भगवतोदितः यदीश्वरे भगवति यथायैरञ्जसारथिः गुरुःशुश्रुषया भक्त्या सर्वलब्धार्पणेन च सङ्गेन साधुभक्ताना ईश्वराराधनेन च श्रद्ध्यातकथायां च कीर्तनैर्गुणकर्मणा तत्पाधाम्बुरुकध्याना तल्लिङ्गेशार्हणादिभिः हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः इति भूतानि मनसा कामैस्तैः साधुमानयेत् एवं निर्जितषट्वर्घे क्रियते भक्तिरीश्वरे वासुदेवे भगवति यया संप्लभते रतिम् निसङ्ग्यकर्माणि गुणानतुल्यान् वीर्याणि लीलातनुभिः कृतानि यथा धिहर्षोत्पुलकाश्रितगद्गतं प्रोत्कण्ठ उद्घायति रौति नृत्यति यथा यथा गृहग्रस्त इव क्वचित् हसति आग्रन्थे ध्यायति वन्तते जनम् भक्तिकरे जगत्पते नारायणेति आत्मतिर्गतत्रपहा तथा पुमान्मुक्तसमस्तभन्तनस्तद्भावभावानुकृता स याकृतिः निर्धक्तबीजानुसयोमहीयसा भक्तिप्रयोगेण समेत्य दोषजम् अधोक्षजालम्भं यिहासुपाद्मनः शरीरिणः संश्रुतिचक्रसाधनं तद्ब्रह्मनिर्वाणसुखं विदुर्भुता ततो भज त्वं हृदये कृतीश्वरं कोतिप्रियासोऽ शुरबालका हरे उपासने स्वे कृति चित्रवत्सतः स्वस्यात्मनः सख्युरशेषदेहिना सामान्यतः किं विषयोपपाधनैः कृकामकी कुञ्जरकोशभूतयः सर्वेऽर्थकामाक्षणभङ्गुरायुषः कुर्वन्ति मर्त्यस्य कियत्प्रियं चलाः एवं किलोका क्रदुभिकृता परं भक्त्यैक एषं यथत्यत्येककर्माणि विद्वन्मान्यसकृन्नरः करोत्यतो विपर्यासम् अमोघं विन्दधे फलं सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः सताप्नोतीहया दुःखम् अनीहाया सुखावृतः कामान् कामयते काम्येर्यथार्थमिह पूरुषः स वैदेहस्तुपारख्यो भङ्कुरो यात्युपैति च किमव्यवहितापत्य धाराकारधनाधयः राज्यं कोशगजामात्य भृत्याप्ता मम दास्पदाः किमेतैयात्मनस्तुश्चै सह देहेननश्वरैः अनर्थैरर्थसङ्काशे नित्यानन्दमहो धतेः निरूप्यधामिह स्वार्थ कियान् देहे भृतोऽसुराः निषेगादिषु अवस्थासु कर्मभिः कर्माण्यारभते देहे देहेनात्मानुवर्तिना कर्मभिस्ततनुदे देह उभयं त्वविवेकतः तस्मात्तर्थाश्च कामाश्च धर्माश्च यतपाश्रयाः भजदानीकयात्मानम् अनीकं हरिमीश्वरं सर्वेषामभिभूतानां हरिरात्मेश्वरः प्रियः भूतेर्मखद्भिः स्वकृधये कृतानां जीवसंज्ञितः देवोऽसुरो मनुष्यो वा भजन् मुगुन्तचरणं स्वस्ति नालं द्विजत्वं देवत्वं ऋषित्वं वासुरात्मजाः प्रीणनाय न वृतं न बहुज्ञता नसौचं धानं प्रियते तपो निज्यान् न शौचं न व्रता न च प्रीयते मलया भक्त्या हरिरण् विडम्बनं ततो भगवति भक्तिं कुरुत दानवाहा आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे दैतेयो यक्षरक्षांसी स्त्रियक्षूद्राव्रजौकसः कखामृगोपापजीवा सन्ति ह्यच्युततां गताः एतावानेव लोकेऽस्मिन् पुंसस्वार्थपरः स्मृतः एकान्तभक्तिर्गोविन्दे यत्सर्वत्र दधीक्षणम् इति श्रीमद्भगवते महापुराणे सप्तमस्कन्दे प्रह्लादानुचरिते दैत्यपुत्रानुशासनं नाम सप्तमोऽध्यायः सर्वत्र गोपिका गोविन्दा गोविन्दा गोविन्द सद्गुरुनाथमहाराज के जय